गरुडपुराणम् आचारकाण्डम् अध्यायम् टु हण्ड्रेड् अण्ड् एय्टीन् ब्रह्मोवाच व्यासश्राद्धमहं वक्ष्ये भुक्तिमुक्तिप्रतमृणाम् पूर्वम् निमन्त्रयद्विप्रान्विशेषाद् ब्रह्मचारिणः प्रदक्षिणोपवीतेन देवान्वामोपभीतिना विदृन्निमन्त्रयेत्पादौक्षालयेद्वाक्यमन्त्रर्म स्वागतं भवद्भिरिधिप्रसरः ॐ सुस्वागतामिति तैरुक्ते ॐ विश्वेभ्यो देवेभ्य यदत्पादोदकमर्घ्यम् देव स्वाहेदिदेवब्राह्मण पदयोर्देवतीर्थेण भुग्नकुशसहितजलदानम् तदो दक्षिणाभिमुखेन वामोपवीतेनामुखगोत्रेभ्यो अस्मत्पितृपितामहप्रपितामहेभ्यो यथा नाम शर्मभ्य ये तत्पादोतकमर्घ्यम् स्वाधेदि पित्रादिब्राह्मणपादयो पितृतीर्थेन आभुग्नकुशकुसुमसहितजलदानम् एवं मादा महादिभ्यः एतदाचमनीयम् स्वः स्वादेदि ब्राह्मणहस्ते एष वोर्घ्य इति ब्राह्मणहस्ते पुष्पदानम् ॐ सिद्धमिदमासनमिह सिद्धमित्यभिधाय ओम्भुः ओम्भुवः ॐ ओम स्वहः ॐ महः ॐ जनः ॐ तपः ओगुं सत्यमिरि सप्तव्याकृतिभिः पूर्वमुखेन्द्रेव ब्राह्मणोपवेशनम् उत्तरदिङ्मुखं पितृब्राह्मणयोपवेशनम् ॐ देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च नमःधायै स्वाहायै नित्यमेव भवन्तु ते इति त्रिर्जपेद ॐ अद्यास्मिन् देश्ये अमुकमासे अमुकराशिं गदे सवितर्यमुकतिधावमुकगोत्राणामस्मत्पितृपितामहप्रपितामहानां यथा नाम शर्मणां विश्वे देव पूर्वकन्द्रश्राद्धं करिष्ये ॐ विश्वेभ्यो देवेभ्यः स्वाहा विश्वेदेवानावाहयिष्ये आवाहये त्युक्ते ॐ विश्वेदेवास आगद शृणुदामिमं हवम् एदम्बर्हिर्निषीद ॐ विश्वेदेवा शृणुते मम् इव मेय अन्तरिक्षेय उपध्यविष्ट ये अग्नि अग्निजिह उद वजत्र आसाद्यास्मबिमादयध्वन ओं ओषधय संवदे सोमेन सहराज्ञा यस्म कृण दिब्राह्मणस्थ राजयामी ओं आगछंद महाभागा विश्ववा महाबला ये अत्र विहिताश्राध्ये सावधाना भवन्तु ते ॐ अबहदासुरारक्षांसि वेदिषद इति त्रित्रेर्यवविकीरणम् ओम पात्रमहं करिष्ये ओम करुष्वत्यनुज्ञात कृत्वा पात्रे पवित्रनिषेवनम् ओम चन्नो देवी रभिष्टय आपो भवन्तु पीतये शयोरभिस्त्रवन्तु न इति पात्रे जलदानम् ॐ यवोऽसि या यवयास्मद्वेषो यवयारादीरिति यवदानं कन्धद्वारां दुरादर्शां नित्यपुष्टाम करीषिणीम् ईश्वरीं सर्वभूतानाम् तामिहोपह्वये श्रयमिदि गन्धदानम् ॐ या दिव्या आपयः सा संबभूवुर्या अन्तरीक्षौदपार्थवीर्याः हिरण्यवर्णा यज्ञे आस्तान आप, आप शिह्वां शंस्योना सुहवा भवन्धु यशोर्खो नम इति ब्राह्मणहस्ते जलं दत्त्वानेनैव पात्रेण पवित्रग्रहणं कृत्वा संस्त्रवं पवित्रं च ब्राह्मणपार्श्वे दद्यात् तत्प्रथमपात्रे संस्त्रवजलं संस्थाप्य कुशोपरि ऊर्ध्वमुखं स्थापनं कुर्यात् तदुपरि कुशदानम् विश्वेभ्यो देवेभ्यः एतानि गन्धपुष्पधूपदीपवात्सो युगयज्ञो पवीतानि नमः गन्धादिदानमच्छिद्रमस्तु अस्त्विब्राह्मणप्रतिवचनम् महाप्रपिता दृपितामहः मादा मादामहः प्रमादा प्रमादामहवृद्धप्रमादामहानां सपत्नीकानां श्राद्धमहं करिष्ये इति अनुज्ञावचनम् कुरुष्वेदि ब्राह्मणायैरुक्ते ॐ देवताप्यपितृभ्यश्च इदि त्रिर्जपेद ॐ अमुकगोत्रेभ्योऽस्मत्पितृपिता महेभ्यो यथा नाम शर्मभ्यः सपत्नीकेभ्यः इदमासनं स्वधायिधि ब्राह्मण वामे आसनदानम् ॐ विदृणावाहयिष्ये ओम् आवाहयेत्युक्ते ॐ उषन्धत्वान्निद्धि मह्युषन्धः समि मही। उशन्नुषद अवहपितृन्घविषे उक्तवे ॐ आ यन्तु न पितरौ सौम्या सोऽग्निष्वात्ता पथिभिर्देवयानैः अस्मिन् यज्ञे स्वधयामदन्तोऽधिब्रुवन्तु ते वन्द्वस्मानित्यावाहनम् ओम् अपहदा सुरारक्षांसि वेदिषदः इति तिलविकिरणम् पूर्ववक्त्रमेण स्थापितपात्रे शूदकदाम् तिलोऽसि सोमदेवत्योगोत्सवो देवनिर्मितः प्रत्नमद्भिप्रकृतस्व यथया पिधृम् लोगान् प्रीणीहि नः स्वाहा इति तिलदानम् गन्धपुष्पे हस्ताभ्याम् दत्त्वा पितृपात्रमुत्थाप्य या दिव्यधि पठित्वा अमुकगोत्रास्मत्पितः अमुकदेव शर्मन् सपत्नीक एष स्वधा अपवित्रं पात्रं गृहीत्वा वामपार्श्वे दक्षिणे कुशोपरि ॐ पितृभ्यस्थानमसीत्यधोमुक पात्रस्थापनम् ॐ शुन्धन्दां लोकाम् पितृसदनात् पितृसदनमसि अधोमुकपात्रस्पर्शनम् अमुकगोत्रेभ्योऽस्मत्पितृपितामह प्रपितामहेभ्यः सपत्नीकेभ्यः एतानि गन्धपुष्पधूप दीप वासोगुणसोत्तरीय यज्ञोपविदानि वस्वद्ध विधृतीर्थेन गन्धादिदानं गन्धादिदानमक्षय्यमस्तु सङ्कल्पसिद्धिरस्तु ब्राह्मणवचनं एवं मादामहादीनामनुज्ञापनादिकर्म ॐ यादिव्येदि भूमिसम्मार्जनम् ततो कृदाकृतमन्नम् गृहीत्वा दक्षिणो बवीदी पितृब्राह्मणमोम् अग्नौ करणमहम् करिष्ये ओम कुरुष्वेदि तेनोक्ते ओम् अग्न एकव्यवाहनाय स्वाहा इति आहुतिद्वयम् देवब्राह्मणहस्ते दत्त्वा अवशिष्टान्नं पिण्डार्थं स्थापयित्वा अपरमर्थं पित्रादिपात्रे मादामहादिपात्रे च निःक्षिपेद पात्रमुद्रादिनिधाय कुशं दत्त्वा अधोमुखाभ्याम् पाणिभ्याम् पात्रं गृहीत्वा ॐ पृथिवीदे पात्रम् द्याौरपिधानम् ब्राह्मणस्य मुखे अमृदे अमृतं जुहोमि स्वाहा पात्राभिमन्ध्रणम् इदं विष्णुर्विचक्रमे त्रेदानि दधे पदं समूढमस्य पां सुरे विष्णो हव्यं रक्षस्व इदन्नमध्ये अधोमुख निवेशनं अपहतेदि ीर्यवविकिरणम् ॐ निषन्मि सर्वं यदमेद्यवत् भवेद्धताश्च सर्वे सुरदानवामया रक्षांसि यक्षास्स पिशाचसङ्घाहदामया यादुधानाश्च सर्वे इति सिद्धार्थविकिरणम् तदो धूरीलोचनसञ्ज्ञकेभ्यो दवेभ्य एतदन्नं संहृतं सपानीयं सव्यञ्जनं स्वाहेदी वारि कुशाद्यरिरनु संकल्पनं। ॐ अन्नमिदमक्षय्यमस्तु ॐ सङ्कल्पसिद्धिरस्तु तदो विपरीतोपवीतेन सव्यञ्जनं सकृतमन्नं। पित्रादिब्राह्मणपात्रे निधाय तदुपरि भूमिः संलग्नकुशम् दत्त्वा ॐ पृथिवीते पात्रम् इति मन्त्रेण उत्तानाभ्याम् पात्रम् गृहीत्वा ॐ इदम् विष्णोरित्यन्नोपरि उत्तानम् द्विजाङ्गुष्ठम् निवेशयेत् ॐ अपहतेदितिलविकिरणम् भूमि पादितवा म जनुः अमूकगोत्रेभ्यः अस्मत्पितृपितामहेभ्यः सपत्नीकेभ्यः एतदन्नं सकृतं सपानीयं सव्यञ्जनं प्रदिषिद्धवर्जितं स्वधा अन्नं सङ्कल्प्य ओम् ऊर्जं वहसन्धिरमृदम् हृद पयः किलम् परिस्रुतं स्वधास्तु तर्पयदमेऽपि धरम् दक्षिणामुखवरिधारत्यागः ॐ श्राद्धमिदमिच्छद्रमस्तु ॐ सङ्कल्पसिद्धिरस्तु ॐ भूर्भुवः स्वस्तत्सविदुर्वरेण्यम् भर्गोदेवस्य धीमहि धियो यो न प्रयुजोदयादि विसजयित्वा ॐ मधुवादा रुतायदा यदा मधुक्षरन्धुसिन्धवः माध्वीर्न सन्दोषधीर्मधुनक्रमुदोषसो मा मधुत्पार्थिवं मा व्रजः मधु द्यौरस्तु नः पिता मधुमान्यो वनस्पतिर्मधु मानस्तु सूर्यो माध्वीर्गावो भवन्तु नः मधु मधु मधु इति जपः यथा सुगं वाग्यदाजुषध्वमिति ब्रूयाद भुक्तवत्सु सपत् सप्तव्याधाधिकं पिदृस्तोत्रं च तच्च सप्तव्याध दशार्णेषु मृगा कालञ्जरे गिरौ चक्रवाकाशरद्वीपे सरसि मानसे तेभिजाधा कुरुक्षेत्रे ब्राह्मणा वेदवारगाः प्रस्थिता दूरमध्वानं यूयं किमवसी दध तत तृप्य स्वदक्षिणाभिमुखो वामोपवीधि तदुत्सृष्टाग्रतः ॐ अग्निदग्धाश्च ये जीवाये प्यदग्धाकुले मम भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु पराङ्गदिं यदि भूमौ कुशोपरिसकृदमन्नं जलप्लुतं विकिरेत् तदो ब्राह्मणक्रमेण जलकण्डूषं दत्वा पूर्ववत्स्या पूर्ववत्सव्या हृदिकां गायत्रीं मधुवादेर्चं जत्वा ॐ रुचिदं भवद्भि देवब्राह्मणः प्रस्रः सु रुचितमिति तेनोक्ते ॐ शेषमन्नमिति प्रस्रः इष्टैः सह पित्रादिब्राह्मणं वामोपवीतेन ॐ तृप्तास्त इति प्रस्रः ॐ तृप्तास्म इति तेनोक्ते मण्डलचतुष्कोणं तिलविकरीर्णम् ॐ अमुकगोत्र अस्मत्पिदः अमुकदेवदर्शन् सपत्नीक एदत्ते पिण्डासनं स्वधा युद्धं मध्येपिदा महाया पिता महाय कव्या हृदिहां गायत्रीं मधुवादेदि त्रर्ज पन्ननं पन्नन्नं साज्यं पिण्डं कृत्वा कुशोपरि अमुकगोत्र अस्मत्पितः अमुक अमुकदेवश्रमन् सपत्नीक एष पिण्डस्ते स्वधा युद्धं रेखा मध्ये पिता महाय तदस्सव्याहृदि गं गायत्रीमधुवादेधि त्रिर्जपन् पिण्डविकिरणं ओम ॐ लेपभुजप्रियन्दमिधि तरन्कुशेषु हस्तमार्जनं प्रक्षालित पिण्डोदकेन ॐ अमुकगोत्र अस्मत्पिदः अमुकशर्मन् सपत्नीकये दत्ते जलमवनेष्वये चात्र त्वामनुजाश्च त्वामनुतस्मै ते स्वधेदि पितृपिण्डसेचनम् पिण्डपात्रमधोमुखं कृत्वा बद्धाञ्जलिः ॐ पितरो मादयध्वं यथाभागमावृषायध्वमिति जपेद अपस्पृष्ट्वा वामेन परावृत्य उदङ्मुखः प्राणां स्थिसंभ्यम्य षड्भ्य ऋतुभ्यो नमः इति जपः वामनेनैव परावृत्य पुष्पदानम् अक्षतञ्चाशिष्ठञ्चास्तु मे पुण्यं शान्ति पुष्ठिदृ पुष्टिभ्यः पुष्टि दक्षिणामुखः अमी मदन्तपितरो यथाभागमावृषा ये षद इति वासशिथिलीकृत्वाञ्जलिं कृत्वा ॐ नमो वक्पिदरो नमो वाह इति जपः गृहान्नपि दरो दत्त इति गृहवीक्षणं ततः सदा वक्पिदरो द्वेष्म इति वीक्ष्य यदद्वपिदरो वास इत्युच्चार्य अमुकगोत्र यदते वास स्वधा इति सूत्रदानम् वामेन पाणिना उदकपात्रं गृहीत्वा ऊर्जं वहन्तीरमृतं खृदम् पयः इत्यादि पिण्डोपरि धारात्यागः पूर्वस्थापितपात्र शेषोदकै प्रत्येकं पिण्डसेचनं पिण्डमावाह्य गन्धादिदानं पिण्डोपरि कुशपत् दत्त्वा ॐ अक्षन्नमी महन्त ह्यव प्रिया अधूषद अस्तोशतस्वभानवो विप्रा नविष्ठयामी यो जन्विन्द्रते हरीदित्रेर्जपः ॐ युद्धमादा महाद्रिब्राह्मणानामाचमनम् ॐ सुसुप्रोक्षितमस्त्विधि भूम्यभ्युक्षणम् कृत्वा ओमपामध्यस्थिता देवः सर्वमप्सुप्रतिष्ठितम् ब्राह्मणस्य करेण्यस्ता शिव आपो भवन्तु नः शिवा आपसन्द्विदि ब्राह्मणहस्ते जलदानं लक्ष्मीर्वसति सौमनस्यं सदास्तु ते सौमनस्यमस्त्विधि पुष्पदानम् अक्षतं चास्तु मे पुण्यं शान्धिः पुष्टिर्धृतिश्च मे यद्यच्छयस्करं लोके तत्तदस्तु सदा मम ॐ अक्षतञ्चाजिष्ठञ्चास्तु इति यवतण्डुलदानम् अमुकपोत्राणामस्मत्पितृपिता महप्रपिता महानां सपत्नीकानामिदमन्नपानादिकमक्षय्यमस्त्विधि पित्रादिब्राह्मणहस्ते तिलजलदानम् अस्त्विदि ब्राह्मणो तिल वदेद ये तन्मादा महादीनामक्षय्यमाशिषः ॐ अघोरा पिदरः सन्धु गोत्रं दादारो नोऽभिवर्धन् वे दां वेदा सन्दधिरेव च श्रद्धा जनो मा व्यगमद्बहुदे यञ्जनोऽस्त्विधि अन्नञ्जनो बहु भवे दधिंश्च लभेमहि याचिदारश्चनः सन्तु मा च याचिष्मः येदा सत्या शिशः सन्तु सौमनस्यमस्तु अस्तित्युक्ते प्रदत्तपिण्डस्थाने अर्घ्यार्तपवित्रमोचनं कुशपवित्रं गृहीत्वा तेन कुशेन पित्रादिब्राह्मणं सृष्ट्वा स्वधां वाजयिष्येवो वाच्यतां पितृ पितामहेभ्यो यथा नाम शर्मभ्यः सपत्नीकेभ्यः स्वधोच्यदाम् अस्तु स्वधा इत्युक्ते ऊर्जं वहन्तीरमृतं कृतमिति पिण्डोपरि वारिधारां दद्याद ततः ॐ विश्वदेव अस्मिन् यज्ञे प्रीयन्ता देवब्राह्मणहस्ते यवोदकदानम् ॐ प्रियन्तामिति तेनोक्ते ॐ देवताभ्य इति त्रिर्जपेद अतो मुकपिण्डपात्राणि चालयित्वा आजम्य दक्षिणोपविधि पूर्वाभिमुखः ॐ अमुकगोत्राय अमुकदेवशर्मणे ब्राह्मणाय सपत्नीकाय श्राद्ध प्रदिष्ठार्थदक्षिणामे दद्रजदन्तुभ्यमहम् संव्रददे इति दक्षिणां दद्यात् इति देवब्राह्मणाय दक्षिणादानम् तदप्यतृब्राह्मणपिण्डा सम्पन्ना इति प्रस्रः सुसम्पन्ना यदि पिण्डे क्षीरधाराम् दत्त्वा पिण्डचालनम् अधिधिब्राह्मणे पिण्डपात्रमुत्थानं कृत्वा ॐ वाजे वाजे वदवाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः अस्य मध्वपिपदमादयध्वं धृप्ता यादपधिभिर्देवयानैरिदि पिण्डादिविसर्जनं मा वाजस्य प्रसवो जगम्यादे मे द्यावापृथिवीविश्वरूपे आ मा गन्तापितराजाम सोमो मृतत्वेन गम्याद इति देव विसर्जनम् ओम् अभिगम्यदामिति पितृब्राह्मणविसर्जनम् ब्राह्मणाय रनुद्गतस्य निवर्दनम् गवादिष्यो पिण्डप्रतिपादनमिति शेषः अयं श्राद्धविधिप्रोक्तपठिता पापनाशनः अनेन विधिना श्राद्धं कृतं वै यत्र कुत्रचिद अक्षया स्यात् पितॄणाञ्च स्वर्गप्राप्तिर्ध्रुवा तथा इत्युक्तं पार्वणं श्राद्धं पितॄणां गारूडे महापुराणे आचारकाण्डे पार्वणश्राद्धकथनं नामाष्ट्रदशाधिकद्विशततमोऽध्यायः ओम् अध्यायं टु हण्ड्रेड् अण्ड् नैन्टीन् ब्रह्मोवाच प्रवक्ष्यामि पूर्व ेषवद ॐ अमुकगोत्राणामस्मत्पितृपिता महानाम् अमुकशर्मणाम् सपत्नीकानाम् श्राद्धम् सिद्धान्येन युष्मा स्वहं करिष्ये आसनाधिकमत्र स्याद्विश्वे देवाविवर्जितम् वृद्धिश्राद्धं प्रवक्ष्यामि पूर्ववत्तद्विशेषकं जातपुत्रमुखदर्शनादौ वृद्धिश्राद्धं पूर्वाभिमुखेषु दक्षिणोपवीदिषु सयवबदरकुशैर्देवतीर्थेन नमस्कारान्तेन दक्षिणोपचार्येण कर्तव्यम् ॐ दक्षिणजानुगृहीत्वा अद्यास्मदीया मुकवृद्धौ अमुकगात्राणामस्मत्प्रपिता महीपिता महीमादॄणा ममुकदेवीनाममुकगोत्राणां श्राद्धे कर्तव्येव सुसत्य संज्ञानां विश्वेष्ठं देवानां श्राद्धं सिद्धान् युष्मासुमया कर्तव्यमिति देवब्राह्मणामन्त्रणम् ॐ करिष्यसीदि तेनोक्त युद्ध मे वा परदेवब्राह्मणा मन्त्रणं तद तदः अमुकवृद्धौ अमुकगोत्राय मत्प्रपिता ते प्रमादा प्रमादा मह्या अमुकदेव्या नान्दीमुख्या श्राद्धं सिद्धान्येन युष्मासुमया कर्तव्यमिति प्रपितामही ब्राह्मणा मन्त्रणं करिष्यामीति तेनोक्ते युद्धमेव प्रमाद प्रमादा मह्यादिब्राह्मणा मन्त्रणम् देवपितृसर्वदेवब्राह्मणं श्राद्ध करणानुज्ञापनम् आसने ॐ विश्वे देवास आगतशृणुदाम इं मंष्ट इवं तं बर्हिर्निषीद ॐ विश्वे देवाशृणुदेमम् इवं ये मे अन्तरिक्षेय उदध्यविष्ट पे अग्निजिह्वा उत वा यदत्रा आसाभ्यास्मिन् बर्हिषिमादयध्वन् ॐ आगच्छन्तु यदि विश्वेदेवासनं गन्धादिदानम् अच्छिद्रावधारणवाचनं ततः प्रपितामही प्रभृतीनामनुज्ञापनमासनदानम् गन्धादिदानञ्च अच्छिद्राव धर धारणवाचनम् इत्थम् पिदा मह्यमाधुः पदप्रपिदा महादीनाम् अनुज्ञापनम् आसना मा वनम् गन्धादिदानं वृद्धप्रमादा महादीनामनुज्ञापनादिकरणम् ओम् वसुतस्य संज्ञकेभ्यो देवेभ्य एतदन्नं सकृतं सपानियं सव्यञ्जनं सभदरं सदधि प्रतिषिद्धवर्जितं नाम इति अन्नसङ्कल्पनम् ॐ अमुगोत्रे मत्पिदामघमोगदे विनादिमुखि एतदन्नं सबदरम् सदधि नमः एवं मादामहप्रभादा महेभ्यः एकोदिष्टं पुरोवश्यं तद्विशेषं वदे शृणु प्रथमं निमन्त्रणं पादप्रक्षालनमासनम् अद्य अमुकगोत्रस्य मत्पितृ मत्पितुरमुकदेवशर्मणप्रति साम्वत्सरिकमेकोदिष्टश्राद्धम् सिद्धान्येन युष्मा स्वहं करिष्ये करिष्येत् श्राद्धकरणानुज्ञापनमासनं गन्धादिदानमन्नानुकल्पनं जप्यं निवी उत्तराभिमुखी भूयातिधिश्राद्धं कुर्याद तद् स्मृतिं ज्ञात्वा दक्षिणाभिमुखी वामोपवीति उच्छिष्टसमीपे अग्निदग्धा इति अन्नविकिरणम् अमुकगोत्रमत्पितर मुकुन्देव मुकुदेव शर्मणेतत्ते मवने निश्व ये चात्र त्वामनुयाश्च त्वामनुतस्मै ते स्वधा इति रेखोपरि वारिधारा दानं शेषं पूर्ववद इति श्रीगारुडे महापुराणे आचारकाण्डे एकोनविंशाधिकद्विशततमोऽध्यायः ओ अध्यायं टु हण्ड्रेड् सपिण्डीकरणं वक्ष्ये पूर्णेब्दे तत्क्षयेहनि कृतं सम्यग्यथा काले प्रदादे पितृलोकतम् सपिण्डीकरणं कुर्यादपराग्नेदुपूर्ववद पिता महादिब्राह्मणनिमन्त्रणम् ॐ पुरूरवार्द्रव साज्ञकेभ्यो देवेभ्य यददासनं नमः वामपार्श्वे चासनदानम् आवाहनं तदपिता महप्रपिदा महवृद्धप्रपिता महानां महा सपत्नीकानां श्राद्धमहं करिष्ये इत्यनुज्ञाग्रहण्णं पात्रत्रयकरणं पात्रोपरि कुशं दत्वा पात्रान्तरेण पिधाय अच्छिद्रावद्धारणान्तं पितुरपि सपत्नीकस्य प्रेद पदान्तनाम्ना श्राद्धकरणानुज्ञापनं देवपात्रा चिद्रावधारणं तत्परिसमाप्यपितामहप्रपिदामः वृद्धप्रविदामः क्रमेण पात्राणां मना चालनम् उद्धाटनं कृत्वा ॐ ये समानास्समनः सपिदरो यमराज्ञे तेषां लोकस्वधा नमो यज्ञो देवेषु कल्पताम् ॐ ये समानासमनसो जीवाजीवेषु मामकाः तेषां श्रीर्मयि कल्पतामस्मिन् लोके शतं समाह यदन्मन्त्रद्वयेन पितृपात्रोदकं पिता महप्रपिता महापात्रे वृद्धप्रपिदा महापात्रम् परित्यज्य पितामहः प्रपितामहयोरुदगन् पवित्रं च पितृपात्रे क्षिपेत् तदपितृब्राह्मणहस्ते पात्रस्तपवित्रदानं पा पात्रस्थपुष्पेण शिरः स करपादार्चनं ब्राह्मणहस्तेऽन्यजलदानं हस्ताभ्याम् पात्रमुद्दाभ्य ॐ या दिव्यदि पठित्वा ॐ अमुकगोत्र मत्पितामह अमुकदेव शर्मन् सपत्नीक एषदे अर्घ्यस्वद्धा पितृपात्रेणैव पितामहब्राह्मणहस्ते स्तोकमर्घ्योदकम् स पवित्रं गृहीत्वा स्तोकमुदकम् पिण्डसेचनार्थम् पात्रान्तरेण पिधाय पितृब्राह्मण वामपार्श्वदक्षिणाग्रकुशोपरि पितृभ्यस्थानमसीदि अधोमुखपात्रस्तपनम् पितामह प्रपितामह वृद्धप्रपिदामहेभ्यो गन्धादिदानमग्नौ करणम् अवशिष्टान्नं प्रपितामहाभिपात्रे क्षिपेद पितामहपात्राभिमन्त्रणपर्यन्तक्रमेण समाप्यापि ब्राह्मणपात्राभिमन्त्रणम् अङ्गुष्ठनिवेशनम् तिलविकरणम् कृत्वा अमुकगोत्रयदते अन्नम् सहृदम् सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं ये चात्रत्वा मनुयाश्च त्वामनुतस्मै ते सुधा इति ततोदेव प्रतिभ्य प्रभृतिभ्य अपोषानं दद्याद अधिप्राप्तौ अधिधि श्राद्धं कुर्याद अस्मिन् अवसरे विकिरणम् पिता मा हदौ कृत्वा पितृब्राह्मण मां स्वदिदम् ओम् अमुकगोत्रमत्पिदः आमुख शर्मन सपत्नीक एष दे पिण्डो ये चात्र त्वामनुयाश्च त्वामनुतस्मै स्वधेदिपिण्डपात्रमच्छिद्रमस्तु ततः सङ्कल्पसिद्धिवाचनं समाप्य पिण्डं द्विधा कृत्वा समाना सुमनस इति मन्त्रद्वयं पठित्वा पितामहवृद्ध प्रपितामहपात्रेषु क्षिपेद पिण्डेषु गन्धादिगं दत्त्वा पिण्डचालनम् अदिधिब्राह्मणे स्वदितादिप्रस्रः ब्राह्मणानामाचमनं भुक्तिक्रमेण ताम्बूलदानम् सुप्रोक्षितमस्तु शिवा आपः सन्धुवृद्धप्रपितामहक्रमेण ब्राह्मणहस्ते जलदानं गोत्रस्याक्षय्यमस्तु पितृब्राह्मणहस्ते उपस्तिष्ठतामिति सदि जलदानम् अघोरापितरसन्धु अस्त्युत्युक्ते स्वधां वाचयिण्य इति पिता मा पिता माहदिब्राह्मणानुज्ञापनम् ॐ भच्यतां युत्युक्ते ॐ पिता महादिभ्य स्वधोच्यताम् अस्तु स्वधेत्युक्ते पितृब्राह्मण पितृभ्य स्वधोच्यतामिति अस्तु स्वधेत्युक्ते ॐ वहन्तीरिति दक्षिणाभिमुखवारिधारात्यागः ॐ विश्वे देव अस्मिन् यज्ञे प्रीयन्तामिति देवब्राह्मणं हस्ते ॐ यवोदानम् ॐ देवताभ्य यदि त्रिर्जपः पिण्डपात्राणि चालयित्वा आजम्य पिता महादिभ्यो दक्षिणां दत्त्वा ततपितृब्राह्मणाय आशिषो मे प्रदीयन्तामित्याशी प्रार्थनं प्रदिगृह्यतामित्युक्ते दादारो नोऽवर्धन्तामिति पात्रमुत्थानं कृत्वा वाजे वाजेदृविसर्जनम् अभिरण्यतामिति पितृब्राह्मणविसर्जनम् पिण्डीकरणश्राद्धं व्यासप्रोक्तम् मया तव श्राद्धं विष्णुश्राद्धकर्ताफलं श्राद्धाधिकं हरिः इति श्रीगरुडे महापुराणे आचारकाण्डे श्राद्धानुष्ठानं नाम विंशाधिकद्विशततमोऽध्यायः ओ टु हण्ड्रेड् अण्ड् ट्वेण्टि वन् ब्रह्मो वाच धर्मसारमहं वक्ष्ये सङ्क्षेपाशृणुशङ्कर भुक्तिमुक्तिप्रदं सूक्ष्मं सर्वपापविनाशनं श्रुतं धर्मं बलं धैर्यं सुखमुत्साहमेव च शोको हरदि वैनॄणाम् तस्माच्छोकम् परित्यजेद् कर्मदाराः कर्मलोकाः कर्मसम्बन्धिबान्धवाः कर्माणि प्रेरयन्तीह पुरुषं सुखदुःखयोः दानमे परो धर्मो दानाः सर्वमवाप्यहे दानात् स्वर्गश्च राज्यञ्च दद्यादनं तदो नरः एकदो दानमेवाहुः समग्रवर समग्रवरदक्षिणम् एकदो भयभीदस्य प्राण प्राणरक्षणं तपसा ब्रह्मचर्येण यज्ञैस्नानेन वा पुनः धर्मस्य नाशका ये च ते वै निरयगामिनः ये जहोमजपस्नानदेवतार्चनतत्पराः सत्यक्षमा दयायुक्तास्ते नरा स्वर्गगामिनः न दादा सुखदुःखानां